निशसादखनम् निशसाद ससाद निनि ससाद कृदव्रद कृदव्रद ससाद निनिशसाद कृदव्रदः ससाद कृदव्रदो कृदव्रद ससाद ससाद कृदव्रदो वरुणो वरुणो कृदव्रद सद कृव्रदो वरुणः कृदव्रदो वरुणो वरुणो कृदव्रदो कृव्रतो वरुणःपत्न्यासु पत्न्यासु वरुणो कृदव्रदो कृदव्रदो वरुणः पत्न्यासु कृद व्रद इति कृद व्रदः वरुणपत्न्यासु पत्न्यासु वरुणो वरुणपत्न्यास्व पत्न्यासु वरुणो वरुणपत्न्या स्वा पत्न्या स्व पत्न्यासु पत्न्या स्वा साम्राज्याय सुक्रदु सुक्रद् साम्राज्ञ्याय साम्राज्ञ्याय सुक्रतुः साम्राज्यायेति साम्राज्ञ्याय सुक्रतुरिति सुक्रतुः